घटोत्कच उवाच सोमस्य वंशे राजासीत् पाण्डुर्नाम महाबलः पाण्डोः पुत्राश्च पञ्चासञ्चक्रतुल्यपराक्रमाः तेषाम् ज्येष्ठस्तु नाम्ना भूत् इति श्रुतः अजातशत्रुर्धर्मात्मा धर्मो विग्रहवाणि वा ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत् गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये तद्दत्त्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः भ्रातृभिस्सह राजेन्द्र शक्रप्रस्थे प्रमोदते गङ्गा यमुनयोर्मध्ये तावुभौ नगरोत्तमौ नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशासति तस्यानुजो महाबाहु। भीमसेनो महाबलः महातेजा महावीर्यः सिंहतुल्यस्य पाण्डवः दश नागसहस्राणां बले तुल्यस्य पाण्डवः तस्यानुजोऽर्जुनो नाम महावीर्यपराक्रमः सुकुमारो महासत्त्वो लोके वीर्येण विश्रुतः कार्तवीर्यसमो वीर्ये, वीर्ये सागरप्रतिमो बले जामदज्ञसमो ह्यस्त्रे सङ्ख्ये राम समोऽर्जुनः रूपे श्रसम् पार्थस्तेजसा भास्कर